हरि ओम् श्रीसीतारामचन्द्राभ्याम् नमः अथ श्रीमद्वाल्मीकि रामायणे युद्धकाण्डे एकषष्टितमः सर्गः विभीषणेन श्रीरामम् प्रति कुम्भकर्णस्य परिचयदानम् श्रीरामस्य आज्ञः युद्धार्थम् वानराणाम् लङ्काद्वारेषु समवस्थानम् ततो रामो महातेज धनरादाय वीर्यवान् किरीटीनम् महाकायम् कुम्भकर्णम् ददर्श हे तम् दृष्ट्वा राक्षस श्रेष्ठम् पर्वताकारदर्शनम् यथा स तोयाम्बुधसङ्काशम् काञ्चनाङ्गदभूषणम् दृष्ट्वा पुनः वानराणाम् महाचमुः विध्रुताम् वाहिनीम् दृष्ट्वा वर्धमानम् च राक्षसम् सविस्मीतमिदम् रामो विभीषणम् अवाचः कोऽसो पर्वतसङ्काशः किरीटे हरिलोचनः लङ्कायाम् दृश्यते वीर स विद्युदिवतो पृथिव्याम् केतुभूतोऽसौ महानैकोऽत्र दृश्यते यम् दृष्ट्वा वा न सर्वे विद्रवन्ति ततस्ततः आचक्ष्व सुमहाकोऽसौ रक्षो वा यदि वासुरः न म एवम्विधम्भूतम् घृष्टपूर्वम् कदाचन सम्पृष्टो राजपुत्रेण रामेणाक्लिष्टकर्मणा विभीषणो युद्धे विभीषण महाप्राण साकुत्थमब्रवी यन वो युद्ध वास्विता से न विद्यते प्रतापवादृश राक्षसों नुधिरा नाच यक्षाभुजङ्गपिशिताशनाश्च गन्धर्वविद्याधरकिन्नरा च सहस्रशूराघवसम् प्रभग्ना शूरपाणिम् विरूपाक्षम् कुम्भकर्णम् महाबलम् हान्तुम् न चेकूत्रिदशाः कालोऽयमिति मोहितः प्रकृत्या ह्येष तेजस्वी कुम्भकर्णो महाबलः अन्येषाम् राक्षसेन्द्राणाम् वरदान कृतम् बलम् बालेन दातमात्रेण क्षुधार्तेन महात्मना भक्षितानि सहस्राणि प्रजानाम् सुबहून्यपि तेषु सम्भक्ष्यमाणेषु प्रजाभय याति स्म शरणम् चक्रम् तमप्यर्थम् न्यवेदयन् स कुम्भकर्णम् कुपितो महेन्द्रौ जघानवज्रेण निशितेन वज्री स शक्रवज्राभियतो महात्मा चालकोपाचभुषम् ननाद तस्य नानाद्यमानस्य कुम्भकर्णस्य रक्षसः श्रुत्वा निनादम् वित्रता प्रजा भूयो विचत्रसु तथा क्रुद्ध महेन्द्रस्य कुम्भकर्णो महाबलः निकृष्यै श्रावत जगानोर जघानो रसि वासवम् कुम्भकर्णप्रहारात् विजज्वालसवासवः ततो विषे दूतसा देवा ब्रह्मार्षि दानवः प्रजाभीसहचक्र च ययोस्थानम् स्वयम्भुवः कुम्भकर्णस्य दौरात्म्यम् शशंसुस्ते प्रजापते प्रजानाम भक्षणम् चापि देवानाम् चापि धर्षणम् आश्रमध्वंसनम् चापि परस्त्रैहरणम् भृशम् एवम् प्रजा यदि त्वे च भक्षयिष्यति कालेन शून्यो लोको भविष्यति वास्तवस्य श्रुत्वा सर्वलोक पितामहः स्यावाहयामास कुम्भकर्णम् ददर्शः कुम्भकर्णम् समीक्ष्यैव वितत्रास प्रजापतिः कुम्भकर्णम् अथाश्व स्वयम्भ्रू इदमब्रवीत् ध्रुवम् लोक पौलस्तेनासि निर्मितः तद्मा तम् मद्य प्रवृति मृतकल्प शैष्यसे ब्रह्मचापाभिभूतोऽथ निपपाता घृतः प्रभ ततः परम सम्भ्रान्तु रावणो वाक्यमब्रवीत् प्रवृद्ध काञ्चनो भुक्ष फरकाले निकृञ्चते न तारम् न्यायम् शतमें प्रजापते न मिथ्या वचनश्चे न संशय कालस्थ क्रीयताम से शागरे तथा रावण सेच श्रुआ स्वयं भूदमब्रवीत शैता है षण्मा जागरिष्यसो वीर चरन् भूमिम् बुभुक्षितः व्याप्तास्यो भक्षयेत् लोकान् संवृद्धैव पावकः सोरसो व्यसनमापन्न कुम्भकर्णम् अबोधयत् तत्पराक्रमभीत च राजा सम्प्रति रावणः स एषो निर्गतो वीर शिबिराद् भीम विक्रमः वानरान् भृश भक्षयन् परिधावति कुम्भकर्णं समीक्षैव हर्योद्य प्रदुद्रुवुः कथम्मेनं मेनम् ऋणे क्रुद्धम् वारिष्यन्ति वानरः उच्यन्ताम् वानरा सर्वे यन्त्रमेतत् समुच्छ्रितम् इति विज्ञाय हरयो भविष्यन्ति निर्भयः विभीषणवच श्रुत्वा हेतुमत् सुमुखोद्गतम् उवाच राघवो वाचम् नीलम् सेनापतिम् तद गच्छ सैन्यानि सर्वाणि व्यूह्य तिष्ठस् भावके द्वारण्यादायि लङ्काय चर्याश्चास्यार्थसङ्ग्रमान् शैलशृङ्गाणि वृक्षा च सर्वे वानर शैलपाणयः राघवेण समाधिष्ठो नीलो हरिच मोपतिः शशासे वानरानेकम् यथा वेत्कपिकुञ्जरः ततो गवाक्ष शरभौ हनुमान् नङ्गदस्तथा शैलशृङ्गाणि शैलाभा गृहीत्वा द्वारमभ्ययुः राम वाक्यमुपश्रुत्य हर्यजित काशिनः पादपैरर्दयन् वीरा वानरः परवाहिनिम् ततो हरीणाम् तदनेकमुग्रम् रराजशैलोद्यतवृक्षहस्तम् गिरे समीपानुगतम् यथैव महन्महाम्भूधरजारमोग्रम् इत्यार्थे श्रीमन् रामायणे वाल्मकी अधिकारे युद्धकाण्डे एकषष्टि तमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु